ब्रह्माण्डपुराणं पूर्वभागम् अध्यायं ट्वेण्टि फोर् ज्योतिषां सन्निवेशनम् सुद उवाच एतच्छ्रुत्वादु सुनय पुनस्ते संशयान्विताः पप्रचुरुत्तरं भूयस्तदा रोमहर्षणं रोमहर्षणम् यदेतदुक्तम् भगवता गृहाणी विस्तृत कथम दैवगृहाुक ज्योतिम शिवर्णय येद्त्व सामचक्षुज्योतिषाचर्णय वायुर्वाच श्रुवा दुवच तदा स उवाच परमं वाक्यं तेषां संशयनिर्णयम् अस्मिन्नर्थे महाप्राज्ञाय यदुक्तं ज्ञानबुद्धिभिः यद्वोहं प्रवक्ष्यामि सूर्याचन्द्रमसोर्भवं यदा देवगृहाणीह सूर्यचन्द्रग्रहास्मृताः ततः समुद्भवं वक्ष्ये सुद्भव दिव्य भौदिकक्योने पार्थिव स्यु व्युष्टायां तो रजनिया वै ब्रमणो व्यक्तन्म अव्यात ताशीन तमसावृत वशिष्टस्मलोक नष्टे स्वयं भगवा लोकतंत्रसाधकोवत्सव्यचर सोग्निम् सौग्नि दृष्ट्वाधलोगा पृथिवी जल संश्रित संवृत्यतं प्रकाशां त्रिधाव्यमजदीश्वरः पवनोयस्तु यस्तु लोकेऽस्मिन् पार्थिवसोऽग्निरुच्यते यश्चासौ तपते सूर्ये शुचिरग्निस्तु सस्मृतः वैद्युतोजस्तु विज्ञे वक्ष्येधलक्षमं वैद्युतो जाढरसौरोक्षपां गर्भास्त्रयोऽघ्रयः तस्मात्तपः पिबन् सूर्यो गोभिर्दीप्यत्यसौ दिवि वैद्युतेन समाविष्टो वार्ष्यो नाद्भिः प्रशाम्यदि कुक्षिस्थो नाद्भिः शास्यति पावकः तस्मात् सौरो वैद्युतश्च जाढरश्चाप्यनिन्धनः किञ्चिदप्सुमदं तेजकिञ्चिदृष्टमबिन्धनं जा काष्ठें धनस्तु निर्मध्य सोद्भिः साम्यधि अर्चिष्मास्मृत यंडलेक्लो निरूष्मा संकाशक प्रभा सौरी पदे न्य दिदिवाकशदे रात्र तस्ूरा प्रकाशदे उद्यतं च पुनः सूर्यमौष्णमयमाग्नेयमाविशद पादेन पार्थिवस्याग्नेस्तस्मादग्निस्तपत्यसौ प्राकाश्यं च तथौष्ण्यं च सौराग्नेये तु तेजसी परस्परानुप्रवेशादाप्यायेदे परस्परम् उत्तरे चैव चूम्यघ्निश्चिणे उठति पुनः सूर्य रात्रिराविशदे ह्यप तस्माताहो दिवारिप्रवेशन सूर्य अक प्रवेश तस्मान्न क्रदं पुनः शुक्ल आपो दृश्यन्दभास्वराः एतेन दक्षिणोत्तरे उदयास्तमने नित्यमहोरात्रं विशत्यपह यश्चासौतपदे सूर्यः पिबन्नम्बो गभस्तिभिः वाग्नि पार्थिवाग्निविमिश्रोऽसौ दिव्यश्युचिरि स्मृतः सहस्रपादसौ वह्निर्कृतकुम्भनिम्भशुचिः आदत्ते सदुनाडीनां सहस्रेण समन्तदः नादेयीश्चैव सामुद्रीकौप्याश्चैव समन्तदः जङ्गमाश्चैव याश्च कुल्यादिका अपहारस्य रश्मिसहस्रं तु शीतवर्षोष्णनिस्तवं तासां चतुशदा नाड्यो वर्षन्ते चित्रमूर्तयः चन्दनाश्चैव साध्यश्च कूदनाकूदनास्तथा अमृता नामदः सर्वा रश्मयो वृष्टिसर्जनाः हिमोद्गताश्च ताभ्योन्या रश्मयस्त्रिशदा पुनः दृश्यामेकाश्च याम्यश्च ह्रदिन्यो चन्द्रास्तानामदः प्रोक्ता मिदाभास्तु गभस्तयः शुक्लाश्च कुहकाश्चैव गावो विश्वभृतस्तथा शुक्लास्तानामदः सर्वस्त्रिसदा धर्मसर्जनाः समं विभजनाडीस्तु मनुष्ट पितृदेवताः मनुष्यानौषधेनेहस्वधयातु पितॄनपि अमृतेन सुरान् सर्वां स्त्रीं स्त्रिभिस्तर्पयत्यसौ वसन्ते चैव ग्रीष्मे च शरदि वै चतुर्भिश्च प्रवर्षति हेमन्दे शिशिरे चैव हिममुत्सृजदे त्रिभिः इन्द्रो धादा भगःपूषा मित्रोऽध वरुणोर्यमाम् अंशुर्विवस्वास्त्वष्टा च सविता विष्णुरेव माघ मेदु वरुण पूलागुने चैत्रे मसीदुदेदा वैशाकतापन ज्येष्ठमा भवदींद्र चाषाठे सविता रवि पिभस्वांचा वणे मसी प्रोठे भागस्मृतः मासित्वष्टाच मार्गशीर्षे मसे भागस्मृत पजन्ययुजे मासी चारक मगशीर्षे भवन्मे विष्णुसनातन पंचरश्मीसहसा वरुणसाकर्मिष्स पूादु दु सत्त्रैस् नवभिस्त शतक्रदु सविदशद सप्त मित्रस्वष्टा चपेद अर्यमा दशभिर्यादिपर्जन्यो नवभिस्तपेद षड्भिरश्मि सहस्रैस्तु विष्णुस्तपदि मेदिनीं वसन्ते कपिलसूर्यो ग्रीष्मेऽर्क कनकप्रभः श्वेदवर्णस्तु वर्षासु पाण्डुशरदि हे मंदे तावर्णस्तु शैशि लोहिदरवि वर्णसमख्या सूर्यस्र्तुसमुद्दवाषधीषु बलम धत्ते स्वधयाच पिदृष्वि सूर्यो मरेष्वप्यम त्रिषु नछ रश्मि रश्मिसहस्रं तु सौरं लोकार्थसाधकं भिद्यते ऋतुमासाद्य जलशीतोष्णनिःस्रवम् इत्येतन्मण्डलं शुक्लम्भास्वरं सूर्यसं नितं नक्षत्रग्रहसोमानां प्रतिष्ठायो निरेव च चन्द्र ऋक्षग्रहाः सर्वे विज्ञेया सूर्यसम्भवाः नक्षत्राधिपतिः सोमोऽग्रह राजो दिवाकरः सेषा पञ्चग्रहाज्ञेया ईश्वरः कामचारिणः पढ्यते चाज्ञनिरादित्य उदकं चन्द्रमा स्मृतः शेषाणां प्रकृति सम्यग् वर्ण्यमाना निबोधत सुरसेनापतिस्कन्धपठ्यतेङ्गारको ग्रहः नारायणं बुधं प्राहुर्वेदज्ञानविदो बुधाः रुद्रो वैव स्वतः लोकप्रभुस्वयम् महाग्रहो द्विजश्रेष्ठो मन्दगामी शनैश्वरः देवासुरगुरूद्वौ तु भानुमन्दौ महाग्रहौ प्रजापदिसुतावेदावुभौ शुक्रबृहस्पदी आदित्यमूलमखिलं त्रैलोक्यं नात्रसंशयः। भवत्यस्माज्जगत्कृष्णं सदेवासुरमानुषं रुद्रोपेन्द्रेन्द्रचन्द्राणां विप्रेन्द्रास्तृतिवौकसां द्युतिर्द्युतिमतां कृष्णं यत्तेजः सार्वलौकिकं सर्वात्मा सर्वलोकेशो महादेवः प्रजापतिः सूर्य एव त्रिलोकस्य शूलं परमदैवतं सर्वं तत्र चैव प्रलीयते भावाभावौ हि लोकानामादित्यान्निर्मृदौ पुरा जगज्ञेयो ग्रहो विप्रा दीप्तिमान सुप्रभो रविः अत्र गच्छन्धिनिधनं जायन्ते च पुनः पुनः क्षणामुहूर्तादिवसा निःशास्पक्षाश्च कृत्स्नशः मासासंवत्सराश्चैव ऋतबोधयुगानि च तदादित्यादृदे कालं संख्यान न विद्यते कालादृतेन निगमो नदीक्षा दीक्षा नाह्निकक्रमः ऋदू नाम विभागा च पुष्पमूलफलङ्कुतः कुतः सस्य विनिष्पत्तिस्तृणौषधि गणोऽपि वा अभावो व्यवहाराणां जन्तूनां दिवि चैह च जगत्प्रतापनमृदेभास्करं वारितस्करं स कालश्चाग्निश्च द्वादशात्मा प्रजापतिः तपत्येष द्विचश्रेष्ठास्त्रैलोक्यं सचराचरम् स एष तेजसां श्याशिस्तमो क्रन् सार्वलौकिकम् उत्तमं मार्गमास्थाय वायोर्धाभिरिदं जगद पार्श्वमूर्ध्वमधश्चैव तापयत्येष सर्वशः यथा दीपो गृहमध्ये वलम् मूर्ध्व पार्श्वमूर्ध्वमधश्चैव तमो नाशयते समं तद्वत्सहस्रकिरणो ग्रहराजो जगत्पतिः सूर्यो गोभिर्जगत् सर्वमादीपयति सर्वतः रवे रवेरश्मिसहस्रं यत्प्राङ्मया समुदाकृतं तेषां श्रेष्ठाः पुनः सप्त रश्मयो विश्वकर्मा तथैव च विश्वश्रवाः पुनश्चान्यः सुषुम्नः सूर्यरश्मिस्तुक्षेण शशिनमेधयेत् तिर्यगूर्ध्वप्रचारोऽसौ शुषुम्नः परिकीर्तितः हरिकेश पुरस्ताद्य ऋक्षयो निः स कीर्त्यदे दक्षिणे विश्वकर्मादो रश्मिन्वर्धयदे बुधम् विश्वश्रवास्तु विश्व्रवास्तु युक्रस्मृतो बुध संपुस्तितूषस्त्वा वसूरश्स्तु स बृहस्पते शनैश्चर पुनश्चा रश्मिराप्यायदे स्वराड एवं सूर्यप्रभावेण ग्रहनक्षत्र तारकाः वर्धन्ते दिविधा सर्वा विश्वं चेदं पुनर्जगद न क्षीयन्ते यदस्तानि तस्मान्नक्षत्रसंज्ञिदाः क्षेत्राण्येदानि वै पूर्वमापतन्तिगभस्तिभिः तेषां क्षेत्राण्यधा सूर्यो नक्षत्रकारकाः तीर्णानां सुकृदेनेह सुकृतान्ते ग्रहाश्रयाद तारणातारकाख्येदा शुक्लत्वाच्चैव तारकाः दिव्यानां पार्थिवानां च नैशानां चैव सर्वशः आदानान्नित्यमादित्यस्तेजसा तपसामपि सवनं स्यन्दनार्थे च धादुरेषु विभाव्यदे सवना तेजसोपाञ्च तेनासौ सवितामतः बह्वार्थश्चरित्ये शक्लादने धादुरुच्यदे शुक्लत्वे चामृतत्वे च चा शीतत्वे च विभाव्यते सूर्याचन्द्रमसो दिव्ये मण्डले भास्वरे खगे जलतेजोमये शुक्ले वृत्तकुम्भनिभे शुभे घनतोयात्मकं तत्र मण्डलं शशिनस्मृतं घनतेजोमयं शुक्लं मण्डलं भास्करस्य विशन्ति सर्वदेवास्तु स्थानान्येतानि सर्वशः मन्यन्तरेषु सर्वेषु ऋक्षसूर्यग्रहाश्रयाः तानि देवगृहाण्येव तदाख्यास्ते भवन्ति च सौरं सूर्यो विश्वेस्थानं सौम्यं सोमस्तथैव च शौक्रं शुक्रो विश्वेस्थानं षोडशार्चिः प्रभास्वरं जैवं बृहस्पतिश्चैव लौहितं चैव लोहितः शनैश्चरोर्विश्य स्थानं देवशानैश्चरं तथा बौद्धं बुधो दस्वर्भानुस्वर्भानुस्थानमास्थितः नक्षत्राणि च सर्वाणि नक्षत्राणि विशन्त्युद गृहाण्येतानि सर्वाणि ज्योतींषि सुकृतात्मनां कल्पादौ सम्प्रवृत्तानि निर्मितानि स्वयंभुवा स्थानान्येतानि तिष्ठन्ति यावदाभूदस्सम्प्लवं मन्वन्तरेषु सर्वेषु देवस्थानानि तानि वै अभिमानिनोऽवतिष्ठन्ते देवस्थानानि वै पुनः अतीतैस्तु सहातीता भाव्या भाव्यैः सुरैः सह वर्तन्ते वर्तमानैश्चानिभिस्तैस्सुरैः सह अस्मिन्वन्वन्तरे चैवग्रह वैदानिका स्मृताः विवस्वानतिदे पुत्रसूर्यो वैवस्वतेन्दरे त्विषि नामा धर्मसुतः सोमो देवो व सुस्मृतः शुक्रो देवस्तु विज्ञेयो भार्गवोऽसुरयाजकः बृहत्तेजास्मृतो देवो देवाचार्यो गिरः सुतः बुधो मनोहरश्चैव त्विषि पुत्रस्तु सस्मृतः शनैश्चरो विरूपस्तु पुत्रो विवस्वतः अग्नेर्विकेश्याञ्जज्ञेतु युवासौल्लोहिताधिपः नक्षत्राण्यर्क्षनामानो दाक्षायण्यस्तुता स्मृताः स्वर्भानुसंहितापुत्रो भूदस्सन्तापनोऽसुरः सोमर्क्षग्रहसूर्येषु कीर्तिदाह्यभिमानिनः स्थानान्येतानि चोक्तानि स्थानि नश्चाध देवताः शुक्लमग्निमयं स्थानं सहस्रांशोर्विवस्वतः सहस्रांश्योऽस्त्विषे स्थानमंमयं शुक्लमेव च आप्यं श्यामं मनोज्ञस्य पञ्चरश्मेर्गृहं स्मृतं शुक्रस्याप्यमयं शुक्लं पद्मं षोडश नवरश्मेस्तु भौमस्य लौहिदं स्थानमंमयम् हरिदाप्यं बृहस्थानं द्वादशांशैर्बृहस्पतेः अष्टरश्मिगृहं प्रोक्तं कृष्णं मन्दस्य चांमयं स्वर्भावोस्तामसंस्थानं भूतस्सन्तापनालयं विज्ञेयास्तारकाः सर्वा अम्मयास्त्वेकरश्मयः आश्रयाः पुण्यकीर्तीनां शुशुक्लाश्चापि वर्णतः कनतोयात्मिका ज्ञेया कल्पादावेव निर्मिताः आदित्यरश्मिस्संयोगास्सम्प्रकाशात्मिकाः स्मृताः नवयोजनसाहस्रो विष्कम्भः त्रिगुणस्त विस्ता मंडल से प्रमाण द्विगुणसूर्यरा विस्ता शशिस्मृत तु्यस्तोस्त स्वर्नुर्भूवा धस्ता प्रसर्पति पृथिवी छाया निर्मदो मंडलाकृति स्वर्भानोऽस्तु बृहत्स्थानं तृतीयं यत्तमोमयम् आदित्यात्तच्च निष्क्रम्य सोमं गच्छति पर्वसु आदित्यमेदि सोमाश्च पुनः सौरेषु पर्वसु स्वर्भा सानुददे यस्मात्तस्मात् स्वर्भानुरुच्यदे चन्द्रस्य षोडशो भागो भार्गवस्तु विधीयते विष्कम्भान्मण्डलाच्चैव योजनाग्रात् प्रमाणतः भार्गवात्पादहीनस्तु विज्ञेयो वै बृहस्पतिः बृहस्पतेःपादहीनौ भौम सौरावुभौ स्मृतौ विस्तारान्मण्डलाच्चैव पादहीनस्तयोर्बुधः तारानक्षत्ररूपाणि वपुष्मन्ति च यानि वै बुधेन समरूपाणि विस्तारान्मण्डलाच्च वै प्रायशश्चन्द्रयोगीनि विद्यादृक्षाणि तत्त्वविद तारा तारानक्षत्ररूपाणि हीनानि तु परस्पराद् शतानि पञ्चचत्वारि त्रीणि द्वे चैव योजने पूर्वापरनिकृष्टानि तारकामण्डलानि च योजनाद्यर्धमात्राणि तेभ्यो ह्रस्वं न विद्यते उपरिष्टात्रयस्तेषां ग्रहाये दूरसर्पिणः सौरों गिराश्च वक्रश्च ज्ञेया मन्दविचारिणः तेभ्यो धस्तात् चत्वारः पुनरेव महाग्रहाः सूर्य सोमौ बुध भागवश्च शीघ्र गा तस्काकोट्यो यदृक्षा शर्वश विधि चषा वृक्षचरिया व्यवस्थित गतिस्तासु सूर्य नी त्वयनक्रमाद चौच्येत्वयनक्रमाद मार्गस्थो यदा पर्वसुचन्द्रमाः उच्चात्वा दृश्यते शीघ्रं नीदिव्यक्रयगभस्तिभिः तदा दक्षिणमार्गस्योनियां विधिमुपाश्रितः भूमिलेखावृतः सूर्यः पूर्णामावास्ययोः सदा न दृश्यते यथा कालं शीघ्रमस्तमुपैति च तस्मादुत्तरमार्गस्थोऽक्षमावास्यान्निशाकरः दृश्यते दक्षिणे मार्गे नियमा दृश्यते न च ज्योतिषाङ्गतियोगेन सूर्याचन्द्रमसावृतः समानकालास्तमयौ विषुवत्सु समोदयौ उत्तरासु च विधिषु व्यन्तरास्तमनोदयौ पूर्णामवास्ययो ज्ञोयौ यदा चरधिरश्मिवान् तदा सर्वग्रहाणाञ्च सूर्योधस्तात् प्रसर्पदि विस्तीर्णमण्डलं कृत्वा तस्योर्ध्वचरते शशि नक्षत्रमण्डलं कृष्णं सोमादूर्ध्वप्रसर्पदि नक्षत्रेभ्यो बुधश्चोर्ध्व बुधादूर्ध्वं तु भार्गवः वक्रस्तु भार्गवादूर्ध्ववक्रादूर्ध्वं बृहस्पतिः तस्माश्चनैश्चरश्चोर्ध्वं तस्मात्सप्तर्षिमण्डलं ऋषीणाञ्चापि सप्तानां ध्रुव ऊर्ध्वं व्यवस्थितः द्विगुणेषु सहस्रेषु योजनानां शतेषु च तारा ग्रहान्तराणि स्युरुपरिष्ठाद्यथा क्रमं ग्रहाश्च चन्द्रसूर्यौ च दिवि दिव्येन तेजसा नित्यमृक्षेषु युज्यन्ते गच्छन्दो नियथाक्रमाद् ग्रहनक्षत्रसूर्यास्तु नीचोच्च मृजवस्तथा समागमे जेदे च पश्यन्ति युगपत्प्रजाः परस्परस्तिदाह्येदे युज्यन्ते च परस्परम् असङ्करेण विज्ञेयस्तेषां योगस्तु वै बुधैः इत्येवं सन्निवेशो वै पृथिव्याज्यौतिषस्य च दीपानामुदधीनां च पर्वतानां तथैव च वर्षाणाञ्च नदीनां च ये च सर्वे नक्षत्रेषु समुद्धिताः विवस्वा नदीतेः पुत्रसूर्यो विशाखासु समुत्पन्नो ग्रहाणां प्रथमो ग्रहः क्वि श्रीमान् धर्मपुत्रस्तु सोमो देवो वसोसुतः शीतरश्मिः समुत्पन्नकृतिकासु निशाकरः षोडशार्चिर्भृगोः पुत्रः तारा ताराग्रहावरस्तिष्य ऋक्षे सुद्धि ग्रहश्चांगि रसपुत्रोद्वादशार्चिर्बृहस्पति फालगुनीषु समुत्वासुचदुरु नवाचिर्लोकितांग प्रजापति ग्रहः। आषाढास्विपूर्वासु समुत्पन्न इति श्रुतिः रेवतीष्वेव सप्तार्चिस्तथा सौरिशनैश्चरः सौम्यो बुधो धनिष्ठासु पञ्चार्चिरुदितो ग्रहः तमोमयो मृत्युशुद्धः प्रजाक्षयकरशिखिः आश्रुलेषासु समुत्पन्नः सर्वहारी महाग्रहः तथा स्वनामधेयेषु दाक्षायण्यसमुद्धृताः तमो वीर्यमयो राहुप्रकृत्या कृष्णमण्डलः भरणीषु समुत्पन्नो ग्रहश्चन्द्रार्कमर्दनः येदेतारा ते तारा ग्रहाश्चापि बोद्धव्या भार्गवादयः जन्म नक्षत्रपीडासु वैगुण्यतां यतः स्पृश्यन्ते तेन दोषेण ततस्तद्ग्रहभक्तितः सर्वग्रहाणा मे देशा मादिरादित्य उच्यते दे। ताराग्रहाणां शुक्रस्तु केदूनामपि धूमवान् ध्रुवकीलो ग्रहाणां तु विभक्तानां चतुर्दिशं नक्षत्राणां श्रविष्ठा स्यादयनानां तथोत्तरम् वर्षाणां चापि पञ्चानामाद्यसंवत्सरस्मृतः ऋदूनां शिशिरश्चापि मासानां माख एव च पक्षाणां शुक्लपक्षश्च तिथीनां प्रतिपत्तदा अहोरात्रविभागानामहश्चापि प्रकीर्तितं मुहूर्तानां तथैवादिर्मुहूर्तो रुद्रदैवतः क्षणश्चाभिनिमेषाधिकालकालविदां वराः श्रवणान्दं धनिष्ठादियुगं स्यात् पञ्चवार्षिकं धानोर्गतिविशेषेण चक्रवत् परिवर्तते दिवा चतुर्विधानां बोधानां प्रवर्तकनिवर्तकः तस्यापि भगवान् रुद्रः साक्षाद्देवः प्रवर्तकः इत्येष ज्योतिषामेव सन्निवेशोऽर्थनिश्चयाद् लोकसंव्यवहारार्थमीश्वरेण विनिर्मितः उत्तराश्रवणेनासौ संक्षिप्तश्च ध्रुवे तथा सर्वतस्तेषु विस्तीर्णो वृत्ताकार इव स्थितः बुद्धिपूर्वं भागवदा कल्पधौ संप्रवर्तिदः साश्रयसोऽभिमानी च सर्वस्य ज्योतिषात्मकः वैश्वरूपप्रधानस्य यथा परिमोयदुद्चक्यम प्रसख्याद यहाँ कचिद गदागतमनुष्येण गदा ज्योतिष सांस आगमा प्रत्यक्ष आगमादनुम्च प्रत्यक्षपत्तिदरीक्ष्य निपुण बुद्धिया श्रद्धातव्यं विपश्चिदा शास्त्रं जलं लेख्यं गणितं बुद्धिवित्तमाह पं चैदेहेतवो विप्राज्योतिर्गणविवेचने इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे ज्योतिषां सन्निवेशनं नाम चतुर्विंशतितमोऽध्यायः ओ